मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं नैन् मयूरेश द्वारयात्राविधिवर्णनं श्रीगणेशाय नमः देवाऊचुः द्वारेषु देवपाः सन्धिद्वारधारकभावतः तेषां पूजनमार्गं तु वद च भ्रृशुंडुवाच क्षेत्रे गणेशानीदाक शुंडादंड्रीमा दुर्बाधर प्रभु पृथूद विशालास्त्रिनेवस्तिसन पाशाकुशर सोपि दराजि नाभिशेषो विचित्रैश्च भूषणायुर्वस्त्रकादिभिः नागयज्ञोपवीदीदु शूर्पकर्णो विराजति तस्य वामाङ्गभागे च सिद्धिः द्विभुजा संस्थिता चामरव्यचनान्विता दक्षिणांगे तथा बुद्धिद्विहस्ताणी सुगंधवस्तुवा संस्था सेवनोत्सुका सूखे मुषकस्त मयूर च विराजी प्रमोद मोदाद्या गृषे स्थिस्ता वैदिकेन जमार्गेण नमोऽतेन प्रपूजयेत् पौराणिकेन देवेश गणेशं सर्वसिद्धितं ततः पूर्वदिशायां स गत्वा द्वारसमास्थितं पूजयेद्गणनाथं तं सशक्तिपरिवारकम् द्विभुजं गणनाथं तु वामभागे जगन्मयीं माञ्जारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुधः तत्र तत्रध्यानं समाख्यामि गजवस्त्रं गजाननं यकहस्ते धृतां भोजं द्विधीयालिङ्गितप्रियम् कपोलौ मदस्संस्रावयुक्तौ भ्रमरसंयुतौ सदानन्दमयं देवाश्चिन्तयेद्गणनायकं द्विभुजां शक्तिमुख्यां वै दक्षिणा लिङ्गितप्रियां वामहस्तेन पत्मं सा बिभ्रतीं चिन्तयेद् हृदि भक्त्राभीष्टप्रदां पूर्णां सदानन्दसमन्वितां मायां संसारदुःखानां नाशिनीं भक्तिकारिणां देवेशा ऊचुः माञ्जारिका त्वया प्रोक्ता मायागणपतेः प्रिया तस्याः स्वरूपकं ज्ञानं वदनो गुरुसप्तमा भुषुण्ड्युवाच जारसर्वत्र शब्दश्च व्यपिचार्यर्थवाचकः सर्वेषु जारभावेषु मदा नानार्थकारिणी तेषु पुरुषरूपेण स्थित आत्मा सदैककः तस्य जारादिकं नास्ति भ्रान्तिभावात्मकं कदा तथापि देहसंस्थश्च माया यात्मा प्रमोहितः द्वन्द्वभावेषु देवेन्द्रास्तदाकारो बभूवः आत्मनो जारभावं तु दर्शयन्ति निरन्तरं मोहयित्वा क्रीडति तेन शक्तिरुत्तमा माञ्जारी सा समाख्यादा मां प्रति गणपक्रीडति द्वन्द्वविहारस्तः सदा तयो तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ तेषाम् पूजनकम् कार्यं यथाविधि सुरेश्वराः तेन धर्मस्य भवधि सम्प्राप्तिस्तस्य शाश्वती विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकं देवे शास्तादृश्यं कार्यं तेन सिद्धिमवाप्स्यथ मास्ये भाद्रपदे चैव शुक्लपक्षे विशेषतः प्रदिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेद तदस्नानं नरकृत्वा द्वारदेवीं समर्चयेद् पुनः स्नानं तदकृत्वा गणेशं पूजयेत्स्वयम् उपोषणयुधश्चैव सदा तिष्ठेत् स देवपाः नियमस्थस्वभावेन गणेशस्मरणादिकम् कुर्यात्तद्वद्वितीयायाम् दक्षिणद्वारमर्चयेत् तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः माया च भुजा प्रोक्ता पूर्ववध्यानगावुभौ विरजा नाम विख्याता शक्रिस्तत्र महेश्वराः तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदं त्रिविधं तु रूजोरूपं मलिनं सर्वगं बभौ तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते गणेशसंयुता देवी तन्मयी विरजा परा तयोर्मानसिकौ पुत्रौ पार्वती शङ्करौ मदौ तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः तया सर्वार्थसंसिद्धिर्लभ्यते नात्र संशयः तृतीयायां तदो वैश पश्चिमद्वारदेवतां पूजये द्विधि संयुक्त उपोषणपरायणः देवी गणेश्वरौ तत्र पूर्वं आश्रया नाम शक्तिस्सा सर्वाश्रयधराबभौ तयोर्मानसिकौ पुत्रौरधिकामौ प्रकीर्तितौ तेषां पूजां प्रगुल्यात् स तेन कामान् लभेन्नरः ततश्चतुर्थिकायां स गच्छेदुत्तरगां पराम् द्वारचक्रिं महादेवा भुक्रिमुख्रिसमन्वितां देव्या गणेश्वरस्यात्र ध्यानं दे तयोर्मानसिकौ पुत्रौ मही वाराहकौ मतौ तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः चतुर्ध्यां गणनाधं स पूजये द्विधि संयुतः मध्याह्नसमये देव उपोषणपरायणाः रात्रौ जागरणं कुर्यात् पञ्चम्यां पारणं चरेद द्विधैः सह नरः साक्षाच्चतुर्विधफलं लभेद एवमाके शुक्लपक्षे द्वारयात्रां समाचरेद् ज्येष्ठे मासी तथा देव वार्षिकं त्रिविधं स्मृदं अधवा प्रतिमासेषु शुक्लपक्षे समाचरेद द्वारयात्रा मधो नित्यं नरसर्वार्थसिद्धिभाक् अथवा गणराजस्य यात्रार्थं यः समागतः तस्मिन् काले चरेद्यात्रां द्वारभूता महेश्वराः न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि चतुर्भिर्दिवसार्जन्धुकुल्याद्यात्रां विधानदः अन्यच्च सम्भ्रवक्ष्यामि द्वारयात्रामयं विधिं देहसामर्थ्ययुक्तानां चतुर्विधफलप्रदम् शुक्ला चतुर्थिका प्रोक्ता चरेद यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यदः सूर्योदयात् समारभ्य पूजां स्वल्पां समाचरेद यावन्नास्तगदो भानुस्तावन्मध्ये समापयेद किञ्चित् दिवसशेषे स गणनाथस्य पूजनं विधियुक्तम् नरोभक्त्या कुर्या तस्मिन् दिने स्वयम् अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः तत्रैकदिवसे यात्रां प्रकुर्या चक्रिभावदः नाम नाम नियमो वृद्धा रोगयुक्ता नालाछया तो मनीषि अथवा ब्राह्मणे नो यात्रा सचरेत द्वार स्वयं त्र वहनस्थ गतिम च शक्तिया प्रमाण ज संयुद् गणेशयुक्तुर्धल गणेशम द्वार संयुक्त यो नर पूजे क्र त गचा सौ धर्म देवा मेद यहाद न भूम्यादिविकारश्च नीचोच्चो नैव विद्यते ये तद्वारस्य माहात्म्यं यशृणोदि नरोत्तमः माहा स वै संस्कारयोगेन भुक्तिं मुक्तिं लभेत्पराम् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मोद्गले महापुराणे षष्ठे खण्डे विकटचरिते मयूरे चद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ओ